नातप्तपसाशक्य एष दिव्यो महारथः द्रष्टुं वाप्यथवा स्प्रष्टुमारोढुम् कुत एव च त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि पश्चादहमथारोक्ष्ये सुकृति सत्पथञ यथा वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः आरुरोह रथं शीघ्रं हयान्ये च रश्मिभिः ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः जजापजप्यं कौन्तेयो विधिवत्कुरु नन्दनः